मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायम् एय्टीन् शेषाख्यानवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच तदशेष तत्र तताप तप उत्तमम् चमदम चमदमपरो भूत्वा योगभूमिमशोधयद क्रमेण पञ्चभूमीनां चित्तस्य पारमागदः शान्तिं प्राप्तो महानागो भजत्तं गणनायकं गाणपत्यस्वभावेना पूजयद्भक्तिसंयुधः एवं तपःप्रभावेण सन्तुष्टो भूद्गजाननः तमाययौ महाभक्तं ध्यानस्तिमितलोचनं जगादसवृणुष्वत्वं वरान्मत्तो सुदुर्लभान् तस्य तद्वचनं श्रुत्वा प्रबुद्धो गणनायकम् दृष्ट् लंबोदरम दणनाम कृदि प्रणम्य विघ्नपं भक्ति संयुक्त पूजय पुनः तुष्ट सुस्थि भूवा निबद्धकसंपुड शेष उवाच गणेशा नमस्तुभ्यं पदे नम चिन्तामणि महाविघ्ननाशकाय नमो नमः सर्वादिपूज्यरूपाय सर्वपूज्याय दे नमः ज्येष्ठराजाय ज्येष्ठानां मात्रे पित्रे नमो नमः विनायकाय सर्वेषां नायकाय नमो नमः नायकानां प्रचालाय नायकै सेवितायते, ते विघ्नेशाय च सर्वेषां पदभ्रंशकरायते अभक्तानां सुभक्तानां विघ्नहन्द्रे नमो नमः डुण्डिराजाय सर्वैश्च डुण्ठिताय सुसिद्धिद डुण्डितानां महाराज परेशाय नमो नमः ब्रह्मणां पदये तुभ्यं ब्रह्मेभ्यो ब्रह्मदायिने ब्रह्मभ्यः सुखदायाथ शान्तिरूपाय ते नमः स्वानन्दवासिने तुभ्यं सदा स्वानन्दमूर्तये नानाविकारकर्त्रे ते समाधये नमो नमः मूषकवाहनायैव मूषकप्रियमूर्तये मूषकध्वचिने तुभ्यं स्तेयरूपाय ते नमः अयोगाय सदा ब्रह्मन् असमाधिस्थहे रम्बमायाहीनाय ते नमः योगाय योगनाधाय योगेभ्यो योगदायिने चित्तवृत्तिविहीनाय गणेशाय नमो नमः किं स्तौमि त्वां गणाधीश मनोवाणी विवर्जितम् मनोवाणीमयं स्वामिन् द्वाभ्यां हीनतयास्तिद अदो वेदादय सर्वे कुण्ठिता नात्र संशयः योगिनः शुकमुख्याश्चातस्त्वां पश्यामि भाग्यदः एवं संस्तुवतस्तस्य भक्तिरससमुद्भवः ननर्ततेन शेषश्च हृष्टरोमाश्रुलोचनः जगाद गणराजस्तु ततस्तम् भक्तमुत्तमम् वरान्वरय शेषत्वं दास्यामि भक्तिभाविदः त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेद धर्मार्थकाममोक्षाणाम् दायकं सर्वसिद्धितं यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः श्रावणान्नात्र सन्देहो भवेन्मद्धिवर्धनं तदस्थं नागराजश्च जगादवचनं हितं प्रणम्य भक्रिलालसह भावुक्त विघ्नेशा देखि गणाधीश तव पादाबुजे परा सदा शांतिस्थम्यम कुरस्व चित्तं पंचविधं प्रोक्त तर सत प्रभो तिष्ठस्वस्फूर्तिरूपेण मदीयभ्रमनाशकः मनश्चञ्चलभावेन संसारविषये रथं भविष्यदि न सन्देहोतस्त्वं तनयो भव संसारे पुत्रभावेन भजिष्यामि निरन्तरं हृदिशान्त्या तथा देव कुलदैवतरूपिणं गणेशक्षेत्रमत्रैव भवतु त्वत्प्रसादः सर्वसिद्धिप्रदम्नाथभक्तेभ्यः शान्दिदायकम् चित्तभूमिधरं वीक्ष्याहं शान्तोऽत्र गजानन धरणीधर संज्ञं त्वाम् वदिष्यन्ति जनाः प्रभो येनाहं वैगणाध्यक्षत्वद्रूपो नात्र संशयः अदो मदीयनाम्ना त्वं धरणीधरको भव अहं धराधर प्रोक्तस्थूलशब्दप्रधारकः त्वं चित्तभूमिगस्वामिन् योगेन धीधरः एवमुक्त्वा गणेशानं विरराम च काश्यपः तमुवाच गणाधीशः सन्तुष्टो भक्तवत्सलः श्रीगणेश उवाच त्वयोक्तं सकलं शेषसफलं ते भविष्यदि सदा शान्तिस्वरूपस्थो मां भजिष्यसि निश्चितं योगशास्त्रस्य कर्ता वै त्वं भविष्यसि मानद न योगे भ्रमहीनस्वभावेन माम्भजस्वविशेषतः धराधरणदुःखश्रमादिकं वै कदाचन न भविष्यदि समाभवेद तव विष्णुशरीरस्थशयिता नित्यमादराद पुष्पतुल्यो भवेद्देवः सोऽपि नायकः सदा यत्नेषु भागस्थो भविष्यसि न संशयः दिक्पालस्त्वमहाभाग सर्वमान्यो न संशयः यवमुक्त्वा गणाधीशो रूपं नानाविधं स्वकम् दर्शयामासशेषाय नानायोगधरं परं समष्टिव्यष्टिरूपं च ददर्शनादरूपकं बिन्दुं सोऽहं तथा बोधं विदेहं प्रभो स्वस्वरूपमयोगस्थं योगशान्तिमयं तथा ददर्श विस्मितशेषो भवत्संशयवर्जितः अन्तर्धानं ययौ सद्यो गणेशो ब्रह्मनायकः शेषस्तत्र गणेशनं स्थापयामास विप्रपैः धरणीधरविघ्नेशो भवत्तत्रैव संस्थितः भक्तेभ्यः सिद्धिदा दासयात्रामात्रेण निश्चितं शेषो जगामदक्षस्वभवनं हर्षसंयुधः विघ्नराजस्य नाभौ च स्वयं तिष्ठदिनागराट् अनन्यभावसंयुक्तो भजत्तं गणनायकम् अधो व्यासावतारश्च बभूवे धर्मपालकः ब्रह्माणं शरणं गत्वा गणेशं शुश्रुवे मुनिः पुराणं स तथा देवमभज तपसायुधः प्रसन्नो गणराजः स तस्मै वेदशाखादिकं सर्वम् चकारभिन्नमादराद तदो बहुगदे गदे काले माययाभ्रान्तिसंयुधः योगभ्रष्टो भवद्योगी चित्तचञ्चलभावदः कदा नदीजले व्यासस्तर्पणं नित्यमाकरोद तस्याञ्जलौ स्वयं शेषः सूक्ष्मरूपधृक तं दृष्ट्वा विस्मितो व्यासस्तत्या जले भयाद मुनिं तं प्रत्युवाचेदं सर्पोऽुष्टप्रमाणकः सर्प उवाच जले सत्वा महोग्राश्च प्रग्रसिष्यन्ति मां प्रभो रक्षस्व त्वं महाभागशरणं त्वां समागतं तच्छ्रुत्वा विस्मिदो व्यासस्थं प्रणम्य महायशः जगाद हर्षसंयुक्तो वचनं स्वहितावहम् व्यास उवाच कस्त्वं वद महाभाङ्गाञ्जलौ मम समागतः नरवन्नाध वदसि नत्वाम जानामि भावदः तस्य तद्वचनं श्रुत्वा तं जगाद पतञ्जलिः हर्षयन् हेदुगर्भाभिर्वाग्भिर्हर्षसमन्विदः चिन्तनं यदि सन्ध्यक्तं तदा कुत्र प्रवर्तते अपूर्वं मुनिशार्दूल मायया पृच्छसि प्रभो मायया सर्पजाधिस्थो नरवद्भाषणं सदा करोति नात्र सन्देहो न तया दुर्लभं भवेत् तस्य तद्वचनं श्रुत्वा तं प्रणम्य मुनिः पुनः पप्रच्छते स्वरूपं दर्शयस्व नमो नमः तदो नराकृतिर्भूत्वा संस्थितो भगवान् स्वयं शेषो ब्राह्मणरूपस्त जगाद महामुनिं पतञ्जलिरुवाच महाभाग महाभागपतितोऽहं हिदायदे पतञ्जलिं च विद्धि मुने शेषं धराधरं गणेशानेन विप्रेष्य प्रेरितमां विशेषदः भ्रान्तिनाशार्धमेवं ते जानीहि सहसा ज्ञात्वादिहर्षितो व्यासप्रणम्यतमुवाचः चिन्तनं च कथं नाधत्यक्तव्यं चित्तगेन नानाभावमिदं दृष्ट्वा तत्र तत्तादृशं भवेद् चित्तं वदस्वादि वदत्स्वादिमहाद्भुतम् योगशास्त्रं स्वयं तस्मै जगादशपदञ्जलिः यथा विघ्नेश्वरेणैव दर्शितं तादृशं परम् विप्रेषोऽन्तर्हितो योगी शेषसर्वार्थदायकः व्यासस्तत्र प्रजानाथ खेदयुक्तो बभूवः शुश्रावस यथा शास्त्रं परं शेषमुखात् पुरा तथा चित्तं समागृह्य योगिवन्द्यो बभूवः पञ्चधा चित्तभूमिस्तत्यक्त्वा तच्चिन्तनं स्वयं चिन्तामणौ तदाकारो बभूव मुनिसत्तमः तस्य भाष्यं चकारापि व्यासो गूढार्थसिद्धये नराणां प्रकितार्थाय सुगमार्थम् प्रजापदे इदं शेषस्य माहात्म्यं कथिदं योगशान्दिदम् अधुना शृणुदक्षत्वं प्रकृतं यत्कथानकम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शेषाख्यानवर्णनं नामाष्टादशोऽध्यायः ॐ